महावाक्यरत्नावले चतुर्थं प्रकरणम् अथ सार्धान्तिकजगन्मिथ्यावाक्यानि त्रयस्त्रिंशत् नान्यत्किञ्चनमिषत् वाचारम्भणम् विकारो नामधेयम् मृत्तिकेत्येव सत्यम् अतोऽन्यथार्तम् न तु अस्ति नात्र काचनभिदास्ति नैव तत्र काचनभिदास्ति सर्वं विकारजातं मायामात्रम् सर्वत्र न ह्यस्ति द्वैतसिद्धिः नास्ति द्वैतं कुतो मर्त्यम् प्रपञ्चो यदि विद्येत निवर्तेत न मायामात्रमिदं द्वैतम् अद्वैतं परमार्थतः विकल्पो विनिवर्तेत कल्पितो यदि केनचित् उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते द्वितीयकारणाभावादनुत्पन्नमिदं जगत् यथैवेदं नभः शून्यं जगच्छून्यम् तथैव हि इदम् प्रपञ्चं यत्किञ्चिद्यज्जगति वीक्ष्यते दृश्यरूपञ्च दृग्रूपं सर्वं शशविषाणवत् इदम् प्रपञ्चम् नास्त्येव नोत्पन्नम् नोस्तितं जगत् चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा माया कार्यादिकं नास्ति मायानास्ति भयं नहि परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि वन्ध्याकुमारवचने भेतिश्चेदस्त्विदं जगत् शशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति सत् मृगतृष्णा जलम् पीत्वा तृप्तश्चेदस्त्विदं जगत् गन्धर्वनगरे सत्ये जगद्भवति सर्वदा गगने नेलिमा सत्ये जगत्सत्यं भविष्यति मासात् पूर्वमृतो मर्त्यौ यागतश्चेज्जगद्भवेत् गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् ज्वालाग्निमण्डले पद्मवृद्धिश्चेदस्त्विदं जगत ज्ञानिनो हृदयं मूढैर्ज्ञातं चेदस्त्विदं जगत अजकुक्षौ जगन्नास्ति यात्मकुक्षौ जगन् नहि सर्वदाभेदकलने द्वैताद्वैतं न विद्यते नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं न हि सच्चिदानन्दमात्रोऽहम् अनुत्पन्नमिदं जगत् इति जगन्मिथ्यावाक्याने त्रयस्त्रिंशत् चतुर्थं प्रकरणं समाप्तम्